सहदेववाचा इमे रत्नानि भूरिणि गोजाविमहिषादयः हस्तिनो श्वास्य गोविन्दा वासांसि निविधानि च दीयतां धर्मराजाय यथा वा मन्यते भवान् भयार्ताय ततस्तस्मै कृष्णो दत्त्वा भयं ददा आददेश्यमहर्हाणि रत्नानि पुरुषोत्तमः अभ्यषिञ्चत तत्रैव जरासन्धात्मजम् मुदा गत्वैकत्वम् च कृष्णेन पार्थाभ्याम् चैव सत्कृतः विवेशराजाद्युतिमान् बर्हद्रथ पुरम् नृप अभिषिक्तो महाबाहुर्जारासन्धिर्महात्मभिः कृष्णस्तु सह पार्थाभ्यां श्रिया परमया पाण्डवाभ्यां सहाच्युतः समेत्य धर्मराजानं प्रीयमाणोऽभ्य बलवान् जरासन्धो निपातितः राजानो मोक्षिताश्चैव दिष्ट्या कुशलिनौ चेमौसेन धनञ्जयौ पुनस्वनगरं प्राप्ता वक्षता विधि ततो कृष्णम् पूजयित्वा यथार्हतः भीमसेनार्जुनौ चैव प्रहृष्टः परिशस्व तत्क्षीणे जरा सन्धे भ्रातृभ्यां विहितं जयम् अजातशत्रुरासाद्या मुमुदे भ्रातृभिः सह हृष्टश्च धर्मराड्वाक्यम् जनार्दनमभाषत युधिष्ठिर उवाच त्वां प्राप्य पुरुषव्याघ्रा भीमसेनेन पातितः राजसूयम् क्रतुश्रेष्ठम् प्राप्स्यामि विगतज्वरः त्वद्बुद्धिबलमाश्रित्या यागार्होऽस्मि जनार्दन पीतम् पृथिव्याम् युद्धेन यशस्ते पुरुषोत्तम जरासन्धवधेनैव प्राप्तास्ते विपुलाश्रियः वैशम्पायनुवाच एवम् सम्भाष्य कौन्तेयः रादाद्रथ वरम् प्रतिगृह्यतु गोविन्दो जरासन्धस्य तम् रथम् प्रहृष्टस्तस्य मुमुदे फाल्गुनेन जनार्दनः प्रीतिमान भवद्राजन् यथा वयः समागम्या भ्रातृभिः सह पाण्डवः सत्कृत्य पूजयित्वा च विससर्जनराधिपान् युधिष्ठिराभ्यनुज्ञातास्ते नृपाहृष्टमानसाः जग्मुः स्वदेशाम् एवम् पुरुषशार्दूलो महाबुद्धिर्जनार्दनः पाण्डवैर्घातयामासा जरासन्धमरिन् घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः धर्मराजमनुज्ञाप्य प्रथां कृष्णं च भारत सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा धौम्यमामन्त्रयित्वा च प्रययौ स्वं पुरीं प्रति तेनैव रथमुख्येन मनसस्तुल्यगामिना धर्मराजविसृष्टेन दिव्येनानादयन् ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ प्रदक्षिणमकुर्वन्त कृष्टमक्लष्टकारिणम् ततो गते भगवति कृष्णे देवकीनन्दने जयं लब्ध्वा स विपुलम् राज्ञां दत्त्वा तदा संवर्धितं यशो भूयः कर्मणा भारत द्रौपद्याः पाण्डवा राजन् प्रीतिमवर्धयन् तस् काले काम संहित्री महाभारती सभापर्ण जरासंधवध जरासंधवधे चतुर्वशोध्या